गर्गसंहिता खण्डं टेन् अश्वमेधखण्डम् अध्यायं 60. श्रीगर्ग उवाच इति श्रुत्वा व्यासमुखात् कृष्णनाम्नां सहस्रकं सम्पूज्य तं यादवेन्द्रो भक्त्या कृष्णे मनो दधे तदसमिथिलायां बहुलाश्वश्रुतदेवयोः दत्त्वा स्वदर्शनं कृष्ण आयहौ द्वारकां पुरीं ततश्च पाण्डवा सर्वे द्रौपद्या सह भार्यया द्वारकाया विनिर्गत्य विचेरुस्ते वने वने भुक्त्वा च वनवासम् तेज्ञादवासम् तथैव च विराडनगरे सर्वे ससैन्यास्ते भवन् नृप ततश्च कौरवा सर्वे श्रीकृष्णेनाभिप्रार्थिताः तेषाम् प्रददू राज्यमर्धार्थं च तदर्थकम् पाण्डवानां कौरवाणां ज्ञात्वा युद्धम् जनार्दनः निरायुधो भूत् यात्रायाम् बलो हन् सूदबल्वलौ ततः सर्वे कुरुक्षेत्रे धर्मक्षेत्रे प्रविश्य च पाण्डवाश्चैव युद्धं चक्रुः परस्परम् जय कृष्णस्य कृपया पाण्डवानाम् बभूवः भारते च मृदा सर्वे कौरवाकृदकिल्बिषाः ततश्च नववर्षाणि धर्मो राज्यम् चकारः अयमेधत्रयम् चक्रे तेन शुद्धो तद कृष्णेच्छया राजन्द्वारकायाम् किलैकदा यादवेभ्यश्च सर्वेभ्यो विप्रशापो भवन् महान् तद कृष्णस्तु भगवान् प्रपन्नायोद्धवाय च अश्वधे कथयामास श्रीमद्भागवतम् परम् तदो बभूव सङ्ग्रामो यादवानाम् परस्परम् निहतास्ते प्रभासे वै शस्त्रैर्नानाविधैरपि बलशरीरम् मनुष्यम् त्यक्त्वा धाम जगामः देवस्तत्र गदान् दृष्ट्वा हरिरन्तरधीयत व्रजे गत्वा हरिर्नन्दम् यशोदाम् राधिकां तथा गोपान् गोपीर्मिलित्वा ह प्रेम्णा प्रेमी प्रियान् स्वकान् श्रीकृष्ण उवाच गच्छनन्दयशोदे त्वम् पुत्रबुद्धिं विहाय च गोलोकम् परमं धाम सार्धं गोकुलवासिभिः अग्रे कलियुगो कोरश्चागमिष्यति दुःखदः यस्मिन्नुवै पापिनो मर्त्या भविष्यन्ति न संशयः स्त्रीपुंसोर्नियमो नास्ति वर्णानां च तथैव च तस्मात् गा चाशुमध्यां जरा मृत्युहरं परं युधि ब्रुवति श्रीकृष्णे रथं च परमाद्भुतम् पञ्चयोजन विस्तीर्णम् पञ्चयोजनमूर्ध्वगम् वज्रनिर्मलसङ्काशम् मुक्ता रत्नविभूषितम् मन्दिरैर्नवलक्षैश्च दीपैर्मणिमय्यैर्युदम् सहस्रद्वयचक्रम् च सहस्रद्वयकोटकम् सूक्ष्मवस्त्राच्छादितम् च सखी कोडिभिरावृतम् गोलोकादागदम् गोपा ददृश्युस्ते मुदान्विदाः एतस्मिन्नन्तरे तत्र कृष्ण देहाद्विनिर्गदः देवश्च दुर्भुजो राजन् कोटिमन्मथसन्निभः शङ्खचक्रधर श्रीमाल्लक्ष्म्या सार्धम् जगत्पतिः क्षीरोदम् प्रययौ शीघ्रम् रथमारुह्य सुन्दरम् तथा च विष्णुरूपेण श्रीकृष्णो भगवान् हरिः लक्ष्म्यागरुडमारुह्य वैकुण्ठम् प्रययौ नृप तदो भूत्वा हरिकृष्णो नरनारायणावृषी कल्याणार्थम् नराणां च प्रयौ भद्रिकाश्रमम् परिपूर्णतमः साक्षात् श्रीकृष्णो राधयायुधः गोलोकादागदं यानमारुरोह जगत्पदिः सर्वे गोपाश्च नन्दाद्या यस्योदाद्या व्रजस्त्रियः त्यक्त्वा तत्र शरीराणि दिव्यदेहाश्च ते भवन् स्थापयित्वा रथे दिव्ये नन्दादीन् भगवान् हरिः गोलोकं प्रययौ शीघ्रं गोपालो गोकुलान्वितः ब्रह्माण्डेभ्यो बहिर्गत्वा ददर्शविरजाम् नदीम् शेषोत्सङ्गे महालोकं सुखदं दुःखनाशनम् दृष्ट्वा रथात् समुत्तीर्य सार्धं गोकुलवासिभिः विवेशराधया कृष्णपश्यन्यग्रोधमक्षयं शतशृङ्गं गिरिवरं तथा श्रीरासमण्डलम् तदो ययौ कियद्दूरम् श्रीमद्वृन्दावनम् वनं वनैर्द्वादशभिर्युक्तम् द्रोहै कामदुःखैर्वृदम् नद्यायमुनयायुक्तम् वसन्तानिलमण्डितम् पुष्पकुञ्ज निकुञ्जम् च गोपी गोपजनैर्वृदम् तदा जय जय रावश्री गो लोके बभूवः शून्ये भूतो पुरा धाम्नि श्रीकृष्णे च समागन्ते तदश्च यदुपत्न्यश्च चिदामारुह्य दुःखदः पदिलोकं ययुः सर्वा देवख्याद्याश्च योषितः बन्धूनां नष्टगोत्राणां चकार साम्बरायिकम् गीताज्ञानेन स्वात्मानं शान्तयित्वा स दुःखदः अर्जुन स्वगुरं गत्वा तमुवाच युधिष्ठिरं स राजा भ्रातृभिः स्वर्गं च भार्यया प्रावयद्वारकं सिन्धुरैवतेन समन्विताम् विहाय नृपशार्दूल गेहं पदेहे। अद्यापि श्रूयते कोशो द्वार्वत्या मर्णवे हरेः अविद्यो वा सविद्यो वा ब्राह्मणो मामगीतनुः विष्णुस्वामी रवे रंशकले रादौ महार्णवे गत्वा नीत्वा हरेरर्चां द्वार्वत्याम् स्थापयिष्यति तं द्वारकेशम् पश्यन्ति मनुजा ये सर्वे कृदार्थतां यान्ति गत्वा नृपेश्वरः यशृणोति वै गोलोकारोहणम् हरेः मुक्तिं यदूनां गोपानां सर्वभावै प्रमुच्यते इति श्रीमद्गर्गसंहितायामश्रुमेधखण्डे राधाकृष्णयोर्गोलोकारोहणम् नाम षष्टितमोऽध्यायः ओ अध्यायम् सिक्स्टि वन् वज्रनाभिरुवाच ब्रह्मन्नारायणो कृष्णो भगवान् प्रकृतेः परः तस्य रूपं कथं श्यामं तन्मे व्याख्यातुमर्हसि त्वादृशमुनयो ब्रह्म चरितं हरेः तथा कृष्णस्य देवस्य न वयं कर्म मोहिताः सुत उवाच इत्याकर्ण्यवचस्तेन संस्तुतः स मुनिर्मुने तत्त्वज्ञानाय तत्त्वज्ञकरुण गर्ग उवाच श्यामम् तु श्रृङ्गाररसस्य रूपम् श्रीकृष्णदेवम् कथितम् मुनीन्द्रैः लावण्यसङ्घा च तदो ज्वलत्वा श्यामम् सुरूपम् हि तथा हरेश्च यथा दूरदो दृश्यते श्यामरूपम् कडायास्तथेदम् नदस्यापि गर्ते यथाकाशरूपम् महाश्यामलम् वा जलम् चाम्बरम् चोज्ज्वलम् नापि कृष्णम् यथा दौदवस्त्रे परे श्यामला हि सविर्दृश्यते चैव भावै परस्य तथा कोडिकन्दर्पलीलाशयत्वाद्धरे तु सन्तो वदन्ती वज्रणाभिरुवाच तव वाक्यान्मुनिश्रेष्ठः सन्देहश्च वदो मम अग्रे ब्रह्मन् कलिर्घोर आगमिष्यदि भूतले तस्मिन्मर्त्या कीदृशाश्च भविष्यन्ति मुने वद त्वम् जानासि भविष्यं च तस्मात् प्रणमाम्यहम् फलेर्दशसहस्राणि जगन्नाथस्तु तिष्ठति तदर्धं जाग्नवीतोऽयं तदर्धं ग्रामदेवताः तदस्सर्वे भविष्यन्ति पापिनकलिमोहिताः नरकांस्ते प्रयस्यन् नरकांस्ते प्रयास्यन्ति सर्वे चाल्पायुषो नराः विप्रा स्वकन्यां दास्यन्ति ब्राह्मणाय च क्षत्रियाश्चैव पुत्रीम् स्वा मारयिष्यन्ति ग्रोलुपाः मृषा कुर्वन्ति वाणिज्यम् वैश्या ब्रह्म स्वतत्पराः शूद्राश्च म्लेश्च शूद्राश्च म्लेच्छ सङ्गेन दूषयिष्यन्ति ब्राह्मणान् ब्राह्मणा शास्त्रहीनाश्च राज्यहीनाश्च क्षत्रियाः वैश्याश्च द्रव्यहीना वैशूद्रानाथस्य दुःखदाः दिने व्यवाय निरदा विरदा धर्मकर्मणि स्त्रियस्वच्छन्दगामिन्यः पुरुषा यो निलम्बडाः पितॄणामर्चनम् चैव वेदानाम् मृत्युविजाम् तथा विष्णोश्च वैष्णवानाम् च गवान् तथा न प्रायेण करिष्यन्ति मानवाक् कलिमोहिताः गणिकासु परस्त्रेषु परवित्तेषु मोहिताः एकवर्ण भविष्यन्ति महाशूद्रसमा किल सखस्यहीना भवेत् पृथ्वी शिला वृष्ट्या निरन्तरम् फलहीनो विवृक्षश्च जलहीना सरित्तथा प्रजाभिस्ताडितो भूपो भूपेन ताडिताः प्रजाः राजोवाच केनोपायेन जीवानाम् कलौ मुक्तिर्भविष्यति तन्ममाख्याहि विप्रेन्द्र त्वम् परावरवित्तमः गर्ग उवाच युधिष्ठिरो विक्रमश्च तथा वैशालिवाहनः विजयाभिनन्दनश्चैव तदा नागार्जुनो नृपः तथा कल्किश्च भगवान्य देवैः करिष्यन्ति कलौ भूमा करिष्यन्ति कलौ भूपा धर्मस्थापनमेव च अभ्युध्युधिष्ठिरो राजा भविष्यन्ति नृपाश्च अधर्मम् नाशयिष्यन्ति भूत्वा वै चक्रवर्तिनः वामनश्च विधिशेषस्सनको विष्णुवाक्यदः धर्मार्थभेदवे चैदे भविष्यन्ति द्विजा कलौ विष्णुस्वामी वामनांशस्तधा माध्वस्तु ब्रह्मणः रामानुजस्तु शेषांशो निम्बार्कसनकस्य च यदे कलयुगे बाव्या सम्प्रदाय प्रवर्धकाः संवत्सरे विक्रमस्य चत्वारः क्षितिपावनाः सम्प्रदाय विहीना ये मन्त्रास्ते निष्फला स्मृताः तस्माच्च गमनम् ह्यस्ति सम्प्रदाय श्रीकृष्णस्य कथा भवेद् वैष्णवैर्विप्रमुख्यैश्च नारायणपरायणैः कृते दुलिप्यदे देश्रदायां ग्राम एव ज द्वापरे च प्रोक्तं कलौ कर्तैव लिप्यदे ज्ञायन् कृते यज्ञै श्रेधायां द्वापरेऽर्चयन् यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्यकेशवम् कृते यद्दशभिर्वर्षैत्रदायाम् हाय्यनेन च द्वापरे चैकमासेन ह्यहो कोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते वासुदेवपरा मर्त्यास्ते कृतार्था न संशयः ते सभाग्या मनुष्येषु कृतार्था नृपनिश्चितम् स्मरन्ति स्मारयन्ते ये धरेर्नामानि वैकलौ कृषिश्च सर्ववचनो नकारश्चात्मवाचकः सर्वात्मा च परम् ब्रह्म तेन कृष्ण प्रकीर्तितः संजप्य ब्रह्म परमं वेदसारम् परात् परम् परम् नास्तीति नास्तेदि कृष्ण इत्यक्षरद्वयं तावद्गर्भे वसेत्कामी तावदीयमयादना तावद्गृही च भोगार्धी यावत्कृष्णम् न शेवदे नश्वरो विषमः सत्यं भोगश्च बन्धवो भुवि स्वयं त्यक्ता सुखायैव दुःखा यस्त्याजिदा परैः श्रुत्वा दैवान्महन्निन्दां श्रीकृष्णस्मरणाद्बुधः मुच्यते सर्वपापेभ्यो नान्यधारौरवं व्रजेद न काष्ठे विद्यते देवो न शिलायां न काञ्चने यत्र भावस्तत्र हरि तस्माद्भावं हि कारयेत सगृदुच्छरितं यन कृष्ण इत्यक्षरद्वयं बद्धपरिकरस्तेन मोक्षाय गमनं प्रति सरोगदा साधुजनेषु वैरं परोपतापो द्विजवेदनिन्द अत्यन्तकोपकडुकाजवाणी नरस्य चिह्नं नरके गदस्य स्वर्गागदानामिह जीवलोके चत्वारि चिह्नानि सदा वसन्ति धनप्रसङ्गो मधुराजवाणी देवार्चनं ब्राह्मणपूजनं च राजोवाच व्रतेषु किं वरं ब्रह्मन् सत्सुतीर्थेषु किं महत् देवेषु पूजनीयेषु को मुख्य कथयस्वनः गर्ग उवाच एकादशी वराह्यस्ति व्रतेषु यदुनन्दन भागीरथी चतीर्थेषु देवभक्तेषु वैष्णवः सुरेषु विष्णुर्भगवान् पूजनीयेषु श्रीगुरुः इमाम् वार्ताम् न कुम्भीपागे पदन्ति राजोवाच एकादश्यास्तु माहात्म्यमन्येषां चैव मे मुने कथयस्वप्रसादेन गुरुदेव नमोऽस्तु दे गर्ग उवाच कथयिष्याम्यहम् सर्वम् शृणुष्व यदुनन्दन एकादश्याम् न भोक्तव्यमन्नम् चैव फलम् तथा यथोक्तविधिना कुर्यादेकादशी तदा सा तस्य फलदा भवेत् नृपसत्तम व्रजनाभिरुवाच फलाहारम् च कुर्वन्ति येन हरिवासरे तेषाम् गति का विस्तराद ऋषिरुवाच समस्तम् चोपवासेन यथोक्तम् लभते फलम् फलाहारेण चार्धम् स्यात् किञ्चिन्न्यूनम् जलेन च अन्नान् सर्वान् वर्जयित्वा गोधो माद्यान् नृपेश्वर एकादश्यां प्रकुर्वीदफलाहारम् मुदा नरः अन्नम् भुनक्रियो राजन् एकादश्यां नराधमः इह लोके स चाण्टालो मृदप्राप्नोधि दुर्गतिं दधि दुग्धं तथामिष्टं कूढं कर्कटिकां तथा वास्तुकं पद्ममूलं च रसालं जानकीफलं गङ्गाफलं पत्रनिम्बून् दाडिमञ्चविशेषदः शृङ्गाटकं नागरङ्गं सैन्धवं कदलीफलम् आम्राधकमार्द्रकं च तूलं च बदरीफलं जम्बूफलमामलकं पडोलं त्रिकुशं तथा लूम् शर्कराकन्दमिक्षुदण्डम् तथैव च द्राक्षादीनिः चान्यानि पवित्रम् च फलम् तथा एकवारम् च राजेन्द्र भोक्तव्यम् हरिवासरे तृतीये प्रसरेतिदे प्रस्थस्य च फलस्य च चा द्विजाय चार्धम् दातव्यमर्धमात्मनि भोजनम् द्विवारम् जलमश्नीया देववारं फलं तद्धा समाचरे जागरणं पूजयित्वा जनार्दनं द्विवारं वा वायो नरो हरिवासरे करोति जफलाहारं तस्य किञ्चित् फलं न हि अन्नभुक्तेन एकादश्युपवासेन तत्सर्वम् विलयम् भवेद भोजनम् ब्राह्मणे दत्त्वा ह्युपवासम् समाचरेद श्रुत्वा तस्याश्च महात्म्यम् सर्वपापै प्रमुच्यते द्रव्यार्थी लभते द्रव्यम् सुतार्थी लभते सुतम् मोक्षार्थी लभते मोक्षमेकादश्या व्रतेन वै इति श्रीमद्गर्गसंहितायामश्वमेधखण्डे एकादशीमाहात्म्यम् नामैकषष्टितमोऽध्यायः ओ अध्यायम् सिक्स्टि टु गर्ग उवाच तपकृतं पुरायेन दुर्जरं पूर्वजन्मनि इह लोके च तस्याशु गुरोर्भक्तिर्भिजायते गुरो, गुरो सेवाम् न कुरुदे स्वगुरुम् यो न मन्यते यः समर्थश्च पदति कुम्भिभागे च सर्वदा गुरोरभक्तम् प्रगदम् दृष्ट्वा गोघ्नो भवेन्नरः स्नात्वा गङ्गाम् च यमुनाम् तदा भवति निर्मलः द्रव्यलाभस्तु शिष्यस्य भवेद्वै यत्र यत्र च दशांशं च गुरोस्तस्मिन् गृहद्रव्ये तथा हिनः तं भुञ्जदि बला शिष्यो न दास्यति गुरुं पृथग समः रौरवं याति हीनः सर्वसुखैदेह हरौ कुर्वन्ति ये नित्यम् च नवलक्षणम् संसारसागरम् राजंस्ते तरन्ति सुखेन वै ज्ञातिम् विद्याम् महत्त्वम् च रूपम् यौवनमेव च यत्नेन परिवर्जेत पञ्चैते भक्तिकण्टकाः भक्त्या कृष्णस्य राजेन्द्रप्रसादम् चरणोदकम् ये गृह्णन्ति भवेयोर्भूपावनाद्रसंशयः गङ्गापापम् शशीतापम् दैन्यम् कल्पतरुर्हरेद पापम् तापम् तथा दैन्यम् सद्यः साधुसमागमः तावद्भ्रमन्ति संसारे पितरः पिण्डतत्पराः यावद्वंशे सुधकृष्णभक्तियुक्तुतो नजायते जायते स किं गुरु स किं तादस पुत्र स किं सखा स किं राजा स किं बन्धुर्न द्याद्यो हरौ मदिं विद्याधनाङ्गारकलाभिमानिनो रूपादिदारासुदनित्यबुद्धयः ृष्ट्वा न्यदेवान् फलकामिनश्च जीवन्मृतास्तेन भजन्ति केशवम् अयमेधचरित्रस्य सुमेरुकथितो मया व्यासकृष्णचरित्रैश्च तवाग्रे नृपसत्तमा यस्य श्रवणमात्रेण कृष्णभक्तिर्भविष्यति नराणाम् नृपशार्दूलशोकमोकभयापः अनेन चरितेनापि लभदेवाञ्छिदम् फलम् धनम् धान्यम् सुदम् भक्तिम् तथा शत्रुक्षयम् नरः तस्माद् भजाशु राजेन्द्र श्रीकृष्णम् जगदीश्वरम् भक्त्या गृहे वा ज्ञात्वा विश्वम् आयुस्ते नरवीर वर्धदुःसदा हेमन्तरात्र्य हे मन्दरात्रिर्यथा लोकानाम् प्रियदर्शनो भव सदा हे यथा शत्रूणामधिदुस्सहो भव सदा हेमन्ततोऽयं यथा नाशं यान्तु तवारयोऽपि सततं यथा सुद उवाच युधि श्रुत्वा वज्रनाभिर्हर्षितप्रेमविह्वलः स्मरन् कृष्णस्य माहात्म्यम् नत्वा गुरुमधा ब्रवीद धन्योऽहम् च कृतार्थोऽहम् भवदा करुणात्मना श्रुत्वा कृष्णस्य माहात्म्यम् लग्नम् कृष्णे च नो मनः सुद उवाच इत्युक्त्वा पूजयामास दर्गाचार्यम् नृगोत्तमः गन्धाक्षतैः पुष्पहारैस्तथा जालकमालया गजैरथैस्तुरङ्गैश्च शिबिकाभिश्च मन्दिरैः रौप्याणाम् चैव भारैश्च स्वर्णभारैश्च शौनक तथा रत्नैश्च ग्रामैश्च ह्यात्मना हर्षपूरितः प्रदक्षिणा प्रणामैश्च तथा नीराजनादिभिः ततश्च गर्ग उद्धाय दत्त्वा वज्राय चाशिष्यम् भूतेन वन्दितसोऽपि ययौ दक्षिणयायुधः स गत्वा यमुनातीरे तीर्थे विश्रान्तिसञ्ज्ञके माधूरेभ्यश्च विप्रेभ्यो मुनि सर्वम् धनम् ददौ गर्गवाक्या तदो वज्रो मधुरायां मुनीश्वरैः चकारभयमेधं वै यथा नागपुरेश्वरः तदस मधुरायां च दीर्घविष्णुं च केशवम् हरिदेवं गिरीश्वरे गोकुले गोकुलेशं च गोकुलाद्योजने बलं स्थापयामास वज्रस्तु हरेश्च प्रतिमाश्च षट् बलस्य प्रतिमाश्चान्या पञ्चवैव्रजमण्डले नृणांशुभाय वज्रस्तु स्थापयामासहर्षिदः अब्दाश्चतुस्सहस्राणि कल्लौ पञ्चशतानि च गदगिरिवरेहि श्रीनाथप्रादुर्भविष्यति तं पूजयिष्यति व्रजे विष्णुस्वामी रवेस्तनुः वल्लभाग्याश्च तच्छिष्याश्चान्ये गोकुलस्वामिनः श्रीमद्भागवतान्मुक्तिम् दृष्ट्वा वज्रपरीक्षितः वैराग्येणाभिमुनयो राज्यम् त्यक्तुम् मनोदधे तदा ययौ चौप गविर्नरनारायणाश्रमाद पादुकमस्तके बिभ्रत् कृष्णचन्द्रस्य वैष्णवः भूपेन वन्दिदसोऽपि प्रत्युधानासनादिभिः कथयामस वज्राग्रे श्रीमद्भागवतं मुदा श्रुत्वोद्धवाद्भागवतं वज्रप्रोवाजहर्षिदः श्रुत्वा मया पुराताद सुसभायां परीक्षितः समाधिभाषाव्यासस्य शुकदेवेन वर्णिता पुनः त्वयापि कथिता कृतार्थोऽहं बभूवः इति उक्त्वा वज्रनाभिस्तु स्वराज्यं प्रतिबाहवे दत्त्वा जगामगोलोकम् विमानेनाभि चोद्धवः चकारराज्यं धर्मेण मधुरायां च दक्षिणे प्रतिबाहुसु दत्तस्य चोत्तरे जनमे अग्रे कलियुगो ब्रह्मन्नागमिष्यति परन्तु चैकम् निर्वाकम् दृश्यन्ते पावनाशनम् यावद्भागवतम् शास्त्रम् यावद् गोकुलस्वामिनः यावद् गोवर्धनो गङ्गा तावत् कलियुगम् भारतानां च खण्डानां जम्बूद्वीपे यथा मध्ये सम्राजदे मेरुसवर्णः पद्मपुष्पवद तथा खंडानाम संहिता महामुने हयमेध चय मध्यमेंराजदे अवणमात्रेण विप्रभा गुरतलग स्त्रीराज पतृगोह मुच्यदक्रस्ल भदे विद्यां राज्यम राजन्य श्रवणाश्च धनं वैश्यो धर्मं शूद्रस्तथैव च नदीषु च यथा गङ्गादेवेषु भगवान् यथा तीर्थेषु वै तीर्थराज इयं वै संहितासु च अस्याश्रवणमात्रेण तृप्तिं व्याधिनरोत्तमः न सज्जेतान्यशास्त्रेषु यथा भागवदान्मुने तस्माद्भजतपादाब्जम् श्रीकृष्णस्य महात्मनः कल्याणार्थम् मुनयो भक्तदुःखहरस्य च श्रीगर्ग उवाच इति श्रुत्वा शौनकाद्यामुनयश्चरितम् हरेः श्लाकाम् वै सूदपुत्रस्य चक्रुर्हर्षितमानसाः संसारसागरे मग्नं दीनं मां करुणानिधे कालग्रहगृहीताङ्गं त्राहि विष्णो नमोऽस्तु दे अनु गृह्णीष्व नः त्वं ह्यनाथस्य वल्लभः त्रैलोक्यस्याभयं दद्याद्यथा स्वामी तथा कुरु श्रीगुरो कृपया हि श्रीमदनमोहनसेवया बभूव वाङ्मम हरे तस्या चरिदमीरिदं वाल्मीक्याद्याश्च व्यासाद्या लघुक्तां कवितां मम पश्यन्तु दृष्ट्वा यूयं चापराधं क्षन्तुमर्हता श्रीमाधवं व्रजपदिं नवमेकपात्रं राधापदिं सुरपदिं मुरलीधरं च भक्तार्तिहञ्च परमार्थमनन्ददेवं। कृष्णम् नमामि हिरसा मनसा जक्त्या षड्विंषच्च रसदा रामात्रिसप्ताशीतिसुप्रियाः श्लोकाश्चरित्र मेरो वै श्रीकृष्णस्य महात्मनः यदि श्रीमद्गर्गसंहितायामश्वमेधखण्डे सुमेरुसम्पूर्तिर्नामद्विषष्टितमोऽध्यायः अश्वमेधखण्डम् समाप्तम् समाप्तोऽयम् ग्रन्थः ओ